मार्कण्डेयपुराणम् अध्यायं 43 दत्तात्रेय उवाच अरिष्टानि महाराज शृणुवक्ष्यामि तानि ते येषामालोकनान्मृत्युं निजं जानादियोगवित देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् यो न पश्येन्न जीवेत्स नरः संवत्सरात् अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनं दृष्ट्वैकादशमासात्तु नरो नोर्धन्धुजीवति वान्दे मूत्रपुरीषे यः स्वर्णं रचतं तथा प्रत्यक्षं कुरुते स्वप्ने जीवेत्स दशमासिकं दृष्ट्वा प्रेदपिशाचादीन् गन्धर्वनगराणि च सुवर्णवर्णान् वृक्षांश्च नवमासान् स जीवति स्थूल कृशकृशस्थूलो यो कस्मादेव जायते प्रकृतेश्च निवर्धेद तस्यायुश्चाष्टमासिकम् खण्डं यस्य पदं पार्ष्ण्यां पादस्याग्रे च वा भवेद् पांशुकर्दमयोर्मध्ये सप्तमासान् स जीवति कृध्रकपोधकालो वा यशो वापि मूर्धनि क्रव्यादो वा खगो नीलषण्मासायुः प्रदर्शकः अन्यदे काकपङ्क्तिभिः स्वां छायामन्यधा चतुःपञ्चसजीवति अनभ्रे विद्युदं दृष्ट्वा दक्षिणां रात्रा रात्रावीन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् घृते तैले तथा दर्श्ये तोयवानात्मनस्तनुम् यः पश्येदशिरस्कं वा मासाधूर्ध्वं न जीवति यस्य वस्तसमो गन्धो गात्रे शव समोऽपि वा तस्यार्थमासिकं योगिनो नृपजीवितं यस्य वैष्ट्रमात्रस्य हृत्पादमवशिष्यते पिबदश्च जलं शोषो शो दशाहं सोऽपि जीवति संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्दति हृष्यदे नाम्बु संस्पर्शात्तस्य मृत्युरुपस्थितः ऋक्षवानरयानस्थो गायन्यो दक्षिणां दिश्यं स्वप्ने प्रयादि तस्यापि न मृत्युकालमिच्छति रक्तकृष्णाम्बरतरा गायन्ती सदी चयं दक्षिणा शान्नये नारी स्वप्ने सोऽपि जीवति नग्नं क्षपणगं स्वप्ने हसमानं महाबलं एकं संवीक्ष्य वल्गन्धं आमस्तक आमस्तकतलाद्यस्तु निमग्नं पङ्गसागरे स्वप्ने पश्यत्यधात्मानं। नरहा, स सो मे नर कस्म भुजंगा निर्जला नदी दृष्ट् स्वने दशा तो मृत्युरेकादे दिनेलठकृष्ण पुषुतायुध पाषाणैस्ताटितस्वप्ने सद्यो मृत्युं लभेन्नरः सूर्योदये यस्य शिवाक्रोशन्ती यादि सम्मुखं विपरीदम्परीदं वा सद्यो मृत्युमृच्छति यस्य वैभुक्तमात्रस्य हृदयं बाधते क्षुधा जायते दन्तखर्षश्च सगदायुर्नसंशयं दीपगन्धं न यो वेत्तित्रस्यत्यग्नि तथा निहि नात्मानं परनेत्रस्तं वीक्षते न स जीवति शक्रायुधं चार्धरात्रे दिवाग्रहगणन्तथा दृष्ट्वा मन्येदसंक्षीणमात्मजीवितमात्मविद नासिका वक्रता मेदि कर्णयोर्नमनोन्नदी नेत्रं च वा मांस्रवधि यस्य तस्यायुरुद्गतम् आरक्तदा मुखं जिह्वा वाश्यामदां तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशं प्रयादितञ्जानीयात् सद्यो मृत्युं न संशयः पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति पततो यस्य वै गर्ते स्वप्ने द्वारं विधीयते न चोत्तिष्ठति यश्वभ्रात्तदन्तं तस्य जीवितम् ऊर्ध्वाजदृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्तमाना मुखस्य चोष्मा शुषिरं च नाभेशं सन्धि पुंसामपरं शरीरम् स्वप्नेऽग्निं प्रविशेद्यस्तु न च पुनः जलप्रवेशादपि वा तस्य जीवितम् यश्चाभिहन्यदे दुष्टैर्भुतैरात्रावधो दिवा स सप्त रात्र्यन्ते नरः प्राप्नोत्य संशयं स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितं यः मृत्युमासन्नं तस्यापिहि विनिर्दिशेत् स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः कथयन्ति मनुष्याणां सदा सन्नौ यमान्तकौ येषां विनीतः सततं यस्य पूज्यतमा मदाः तानेव चावजानादि तानेवच च विनिन्दति देवान्नार्चयदे वृद्धान् गुरून् विप्रांश्च निन्दति माता पित्रोर्न सत्कारं जामातॄणां करोति च योगिनां ज्ञानविदुषामन्येषां च महात्मनां प्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः योगिनां सततं यत्नाधरिष्ठान्यवनीपदे संवत्सरान्धे तज्ज्ञेयं फलदानि दिवानिशम् विलोक्या विशदा फलपङ्क्तिसुभीषणा विज्ञायकार्यो मनसि स च कालो नरेश्वर ज्ञात्वकालञ्च तं सम्यगभयस्थानमाश्रितः युञ्जीदयोगी कालोऽसौ यथा नास्या फलो भवेत् दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजम्भयं तत्स्वभावं तदालोक्य काले यावत्युपागतं तस्य भागे तथैवाह्नो योगं युञ्जीदयोगविद पूर्वाह्ने चापराह्ने च चा मध्याह्ने चापि तद्दिने यत्र वा रजनीभागे तदरिष्टं निरीक्षिदं तत्रैव तावद्युञ्जेद यावत्प्राप्तं हि तद्दिनं तदस्त्यक्त्वा भयं सर्वं जित्वा कालमात्मवान् तत्रैवा वसधे स्थित्वा यत्र वा स्थैर्यमात्मनः युञ्जीदयोगं निर्जित्य त्रीन् गुणान् परमात्मनि तन्मयश्चात्मना भूत्वा चित् वृत्तिमपि सन्ध्यजेत् ततः यत् बुद्धेर्यन्न चाख्यातुं शक्यते तत् समश्नु ये तत्सर्वं समाख्यातं तवालर्क यथार्थवद प्राप्स्यसे येन तद्ब्रह्म सङ्क्षेपात् तन्निबोधमि शशाङ्करश्मिसंयोगात् चन्द्रकान्तमणिष्पयः समुत्सृजति नायुक्तः सोपमा योगिनस्मृता यच्चार्करश्मिस्संयोगादर्ककान्दो उदाशनम् आविष्करोति नैक सन्नुपमा योगिनः पिपीलिकाकुनकुलगृहगोधाकपिञ्चलाः वसन्ति स्वामिवद्गेहे ध्वस्ते यान्ति तदोन्यतः दुःखन्दुस्वामिनो ध्वंसे तस्य तेषां न किञ्चन भेश्मनो यत्र राजेन्द्र सोपमायोगसिद्धये मृद्वाहि काल्पदेहापि मुखाग्रेणाप्यणीयसा करोति मृद्भारचयमुपदेश स योगिनः पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितं वृक्षं विलुप्यमानन्तु दृष्ट्वा सिद्ध्यन्ति योगिनः रुरुषावविषाणाग्रमालक्ष्य तिलकाकृतिं सह तेन विवर्धन्तं योगी, योगी सिद्धिमवाप्नुयात् द्रवपूर्णमुपादाय पात्रमारोहदो भुवः तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न सर्वस्वे जीवनायालं निखादे पुरुषस्य या चेष्टतां तत्त्वतो ज्ञात्वा योगिनः तद्गृहं यत्र वसति तदोज्यन जीवति ये संपद्यते चातस्तु ममता का अभ्यथि तय कार्यम कौदि कर्णा तथा बुद्ध्यादि पारक्य साध जड उवाच तदः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः प्रश्रयावनदोवाक्यमुवाचादिमुदान्वितः अलर्क उवाच दिष्ट्या देवैरिदं ब्रह्मन् पराभि भवः सम्भवम् उपपादितमद्युग्रम् प्राणसन्देहदम्भयम् दिष्ट्या काशिपदेर्भूरिबलसम्पत्पराक्रमः यदुच्छेदादिहायातः सयुष्मत्सङ्गतो मम दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः दिष्ट्या कोशः क्षयं योधो दिष्ट्याहं भीतिमागतः दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतं दिष्ट्या त्वदुक्तय सर्वा मम चेदसि संस्थितः दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमाद् भवदाच्चैव कारुण्यं दिष्ट्या ब्रह्मन् कृतं मम अनर्थोऽप्यर्थतां व्यादिपुरुषस्य शुभोदये यथेदमुपकारायव्यसनं सङ्गमात्तव सुबाहुरुपकारी मे स च काशीपदिः प्रभो यहोकृदेकं सम्प्राप्तो योगीश भवदोऽन्तिकं सोहं तव प्रसादाग्निर्दग्धाज्ञानकिल्विषः तदा यदिश्ये येनेदृङ् न भूयां दुःखभाजनम् परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननं त्वत्तोऽन्युज्ञां समासाध्यज्ञानदा दुर्महात्मनः दत्तात्रेय उवाच गच्छ राजेन्द्रभद्रं ते यथा ते कथितं मया निर्ममो निरहङ्कारस्तथा चरविमुक्तये जड उवाच एवमुक्तः प्रणम्यैनमाजगामत्वरान्विदः यत्र काशिपतिर्भ्रादा सुबाहुश्चास्य सोऽग्रजः समुत्पत्यमहाबाहुं सोलर्ककाशीभूपदिं सुबाहोरग्रदो वीरमुवाच प्रशसन्निव राज्यकामुककाशीश भुज्यतां राज्यमूर्जितं तथा च रोचते तद्वत्सुबाहो सम्प्रयच्छव काशीराज उवाच किमलर्कपरित्यक्तं राज्यं ते संयुगं विना क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मविद निर्जिदा मात्यवर्गस्तुत्यक्त्वा मरणजम्भयं सन्दधीदशरं राजा लक्ष्यमुद्दिश्य वैरिणं तं जित्वा नृपतिर्भोगान्यथाभिलषितान्वरान् भुञ्जेदपरमं सिद्ध्यै यजेद च महामखैः अलर्क उवाच एवमीदृशकं वीर ममाप्यासीन्मनःपुरा साम्प्रतं विपरीतार्थं शृणुचाप्यत्र कारणम् यथाऽयं भौतिकसङ्खस्थ तथान्धकरणं नृणां गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु एवायं यदा नान्योऽस्ति कश्चन तदा का नृपदे ज्ञानान्मित्रारिप्रभुभृत्यदा तन्मया दुःखमासाद्य त्वद्भयोद्भवमुत्तमं दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर निर्जितेन्द्रियवर्गस्तुत्यक्त्वा सङ्गमशेषतः मनो ब्रह्मणि सन्ध्याय तज्जये परमो जयः संसाध्यमन्यस्तत्सिद्ध्यै यथ किञ्चिन्न विद्यते इन्द्रियाणि च संयम्य तदसिद्धिं नियच्छति सोऽहं नतेरिर्नममासि शत्रुः सुबहु रेषो न ममापकारी दृष्टं मया सर्वमिदं यथात्मा अन्विष्यदाम्भोपरिपुस्त्वयान्यः इत्थं स तेनाभिहितो नरेन्द्रो हृष्टः समुद्धाय ततः सुबाहुः दिष्टेदितं माभि भ्रातरमानंद्यशीश्वर वाक्यदम बभाषे श्रीमाकंडेयपुराणे अरिष्ट कथन नाम स्त्री ओम